मार्कण्डेय पुराणम् अध्यायं हण्ड्रेड् एण्ड् वन् दिवाकरस्तुतिवर्णनं मार्कण्डेय उवाच सृष्ट्वा जगदिदं ब्रह्मा प्रविभागमधाकरोत् वर्णाश्रमसमुद्राद्रिद्वीपानां पूर्ववद्यथा देवदैत्योरगादीनां रूपस्थानानि पूर्ववत् वेदेभ्य एव भगवान् अकरोत्कमलोद्भवः ब्रह्मणस्तनयो योऽभून्मरीचिरिति विश्रुतः कश्यपस्तस्य पुत्रोऽभूत्काश्यपोन्नामनामतः दक्षस्य तनया ब्रह्मंस्तस्य भार्यास्त्रयोदश बहवस्तत्सुताश्चासन् देवदैत्योरगादयः अदिर्जनयामास दैवां स्त्रिभुवनेश्वरान् दैत्यान् दिदिर्तनुश्चोग्रान् दानवानुरुविक्रमान् गरुडारुणाउच विनदा यक्षरक्षां शिवै खसा कदृसुषावनागांश्च गन्धर्वान् सुषुवे मुनिः क्रोधाया जनिरेकुल्यारिष्ठायाश्चाप्सरोगणाः ऐरावदादीन्मादङ्गान्निरा च सुषुवेद्वि च ताम्राजसुषुवेश्येणीप्रमुखा कन्यका द्विच प्रधाया या दशां अदित्यां या समुत्पन्ना कश्यपस्येदि सन्ततिः तस्याश्च पुत्रदौहित्रैः पौत्रदौहित्रिकादिभिः व्याप्तमेदज्जगत्सूत्या तेषां तासां च वैमुने तेषां कश्यपपुत्राणां प्रधाना देवता सात्जसस्वे तमसाश्च मु गण देवान्यभुजक्रे तधात्रिभुवनेश्वरा ब्रह्मा ब्रह्मे परी प्रजापति तान बाधंदसहिता सपत्ना दैत्यदान वहा राक्षसाश्च तथा युद्धं तेषामासीत् सुदारुणम् दिव्यं वर्षसहस्रं तु पराजीयन्तदेवताः जयिनश्च भवन्विप्रबलिनो दैत्यदानवाः ततो निराकृतान् पुत्रान् दैतेयैर्दानवैस्तथा हृदत्रिभुवनां दृष्ट्वा ह्यदिर्मुनिसत्तमाच्छिन्नयज्ञभागांश्च शुचा सम्पीडिता भृशम् आराधनाय सविधुः परं यत्नं प्रचक्रमे एकाग्रा नियदा हारापरं नियममास्थिता तुष्टावतेजसां राशिं गगनस्थं दिवाकरम् अदिरुवाच अदि नमस्तुभ्यं परां सूक्ष्मां सौवर्णिं बिभ्रदे तनुं धाम धाम वदामीशद्धां नामाधारशाश्वत जगदामुपकाराय तथापस्तव गोपते आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ग्रहीतुमष्टमासेन कालेनेन्दुमयं रसं बिभ्रतस्तव यद्रूपमतितीव्रं नदास्मि तद् तमेवमुञ्चदस्सर्वं रसं वै वर्षणाय यत् रूपमाप्यायकं भास्वं तस्मै मेधाय ते नमः वार्युत्सर्गविनिष्पन्नमशेषं चौषधीगणं पाकाय तव यद्रूपं भास्करं तं नमाम्यहं यच्च रूपं तवातीतं हिमोत्सर्गादिशीतलं तत्कालसस्यपोषाय करणे तस्य ते नमः नादितीव्रं च यद्रूपं नादिशीतं च यत्तव वसन्तर्तौरवे सौम्यं तस्मै देव नमो नमः आप्याय नमशेषाणां देवानां च तथा परं पितॄणां च नमस्तस्मै सस्यानां पाकहेतवे यद्रूपं जीवनायैकं विरुधाममृदात्मकं पीयदे देवपितृभिस्तस्मै सोमात्मने नमः आप्याय दाहरूपाभ्यां रूपं विश्वमयं तव समेधमग्निसोमाभ्यां नमस्तस्मै गुणात्मने यद्रूपमृग्यजुःसाम्नां मैक्येन तपते तव विश्वमेधत्रयी संज्ञं नमस्तस्मै विभावसो मार्कण्डेय उवाच यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिशब्दिदम् अस्थूलानन्दममलं नमस्तस्मै सदात्मने एवं स नियता देवी चक्रे स्तोत्रमहर्निशं निराहारा विवस्वन्दमारि राधयिषुर्मुने ततःकालेन महदा भगवांस्तफनोऽम्बरे प्रत्यक्षतामगाधस्य दाक्षायण्या द्विजोत्तमा सा दर्शमहागूढं तेजसों वरसं श्रितं जगादमे प्रसीदेधि न त्वां पश्यामि गोपदे यथा दृष्टवद् पूर्वमम्बरस्तं सुदुर्दृशं निराहाराविवस्वन्दं तपन्तं तदनन्तरं सङ्घातं तेजसां तद्वदिह पश्यामि भूतले प्रसादं कुरुपश्येयं पश्येयं यद्रूपं ते दिवाकर भक्तानुकम्पकविभो भक्ताहं पाहि मे सुदान् त्वं दादा विसृजसि विश्वमेतत्त्वं पासि स्थितिकरणाय सप्रवृत्तः त्वय्यन्देलयमखिलं प्रयाजित त्वं त्वत्तोऽन्यान्नहि गदिरस्ति सर्वलोके त्वं ब्रह्महरिरजसंज्ञस्त्वमिन्द्रो वित्तेषः पितृपदिरपदिः समीरः सोमोऽग्निर्गगनपदिर्महीधरोऽब्धिः किं स्तव्यं तव सकलात्मरूपधाम्नः यज्ञे षत्वामनुदिनमात्मकर्मसक्ताः स्तुन्वन्दो विविधपदैर्द्विजा यजन्ति ध्यायन्तो विनियतचेदसो भवन्तं योगस्ताः परमपदं तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्रादय शम्भुगर्भैः सृजसि कमलजन्मा पालयसिच्युताख्यः क्षपयसि च युगान्धे रुद्ररूपस्त्वमेकः इति श्रीमार्कण्डेयपुराणे दिवाकरस्तुतिर्नामयिकाधिक शततमोऽध्यायः ओ